हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे सप्तनवतितमः सुग्रीवेणा महोदयस्य वध हन्यमाने बले तूर्णम् अन्योन्यं ते महामृधे सरसिव महाघर्मे सुप्रीणे बभूवतु स्वबलस्य तुघातेन विरूपाक्षवधेन च बभूवै द्विगुणम् क्रुद्धो रावणो राक्षसाधिपः प्रक्षीणम् सबलम् दृष्ट्वा वध्यमानम् वलिमुखै बभूवास्य व्यथायुद्धे दृष्ट्वा दैव विपर्ययम् उवाच च समीपस्थम् महोदरमनन्तरम् अस्मिन् काले महाबाहु जया शा त्वयि मे स्थिता जहि शत्रु च मम् वीर दर्शयाद्य पराक्रमम् भर्तृपिण्डस्य कालोऽयं निवेष्टुम् साधुयुध्यताम् एवम् मुक्तः तथेत्युक्त्वा राक्षसेन्द्रो महोदरः प्रविवेश ऋसेनाञ्च पतङ्गकम् ततस्त कदनम् चक्रे वानराणाम् महाबलः भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः वानराश्च महासत्वा प्रगृह्य विपुला शिलः प्रविश्यारीबलम् भीमम् जघ्नुस्ते सर्वराक्षसान् महोदरः सुसङ्क्रुद्ध शरीकाञ्चन भूषणैः चिच्छेदपाणिपादोरु वानराणाम् महाहवे ततस्ते वानरा सर्वे राक्षसी वर्दिता भृशम् निशोदश धृता केचित् केचित् सुग्रीवमाश्रितः प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम् अभिरुद्राव सुग्रीवो महोदरम् अनन्दनम् प्रगृह्य विपुलाम् घोराम् महीधर स मां महातेजा तद्वधाय हरीश्वरः ताम् आपतन्तीं स सा शिलां दृष्ट्वा महोदरः असम्भ्रान्त ततो बाणै निर्विभेद दुरासदाम् रक्षता तेन बाणोभै निकृत्ता सा स्रधा निपपात तद गुध्र चक्र मिवाकुलम् तां तु भिन्नाम् शिलां दृष्ट्वा सुग्रीव क्रोध मूर्छितः शालमुत्पाट्य जिक्षेप तं स चिच्छेदनैकधा शरैश्च विददारयिणम् शूरे परबलादनः सददर्श तथ परिघं पतितं भुवि आविद्य तु परिघम् तस्य दर्शनम् परिघेणोऽग्रवेगेन जघानास्य हयोत्तमां तस्मात् हत हयाद्वीर स्ववप्लुत्य गदाम् गदां जग्राह संक्रोधो राक्षसोऽथ महोदरः गदा परिघस्तोतौ युधि वीरौ समीयतु नर्दन्तो गोवर्यपृ घनो एव स विद्युतौ तथा क्रुद्धौ गदां तस्मै चिक्षेपरजनेचरः जलन्तीं भात्रा भासाम् सुग्रीवाय महोदरः गदान्तां सुमहाघोराम् आपतन्तीं महाबलः सुग्रीवो रोष तां राक्ष समुद्यम्य महाहवे अजघान गदान्तस्य ण हरीशर है पत तरसा पिघस्त भूतले ततो तगराह तेजस्वी सुग्रीव वसुधातलायस मुसलम घोरम सर्वतो हेम भूषित शम्य चेप सोप्यस्त प्रक्षिप्दा भिन्ना वनोंोन्यसाद ेततुस्तौ महीतले ततो भिन्न प्रहरणौ मुष्टिभ्यान्तौ समेयतुः तेजो बलसमाविष्टौ दीप्तो हुताशनौ जघ्नतुस्तौ तदन्योन्यम् न दन्तौ च पुनः पुनस्तरे चान्योन्यमासाद्य पेततुश्च महीतले उत्पेततुस्तदा तूर्णम् जघ्नतुश्च परस्परम् भुजे चिक्षे पतुर्वीरौ अन्योन्यम् अपराजितौ जग्मतु वीरो। बाहु युद्धे बाहुयुद्धे परन्तप अजहार तदा खड्गम् अधुर परिवर्तिनम् राक्षसश्चर्मणा सार्धं महावेगो महोदरः तथैव च महाखड्गम् शर्मणां पतितं सः जग्राह वा नदश्रेष्ठ सुग्रीवो वेगवत्तरः ततो रोषः परिताङ्गौ न दन्तौ अभ्यधावताम् उद्यतासीर्णे रुष्टौ युधिष्ठविशारदौ दक्षिणम् मण्डलं चोभौ सुतूर्णं सम्पदीयतु अन्योन्यम् अभिसंक्रुधौ जये प्रणेहितौ भौ स महावेगो वीरे श्लाघि महोदरः महावर्मणीतम् खड्गम् पातयामास दुर्मतिः लग्नम् उत्कर्षदः खड्गम् खड्गे न कपि गुञ्जरः जहार स चिरस्त्राणम् कुण्डलोपगतम् पतितस्य महीतलेः तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते हत्वा त्वम् वानरैः सार्धम् ननादमुदितो हरिः चुक्रोध च दश राघवः विषण्ण वदना सर्वे राक्षसादीन चेतसः विस्रवन्ति ततः भयभीत्रस्तेतसः महोदरं तं विनिपात्य भूमौ महागीरे कीर्णमिवै करेशं सूर्यात्मजस्तत्र रराजलक्ष्म्या सूर्यस्वतेजोभिरिवा प्रश्य अथ विजयमवाप्यवा नरेन्द्र समलमुखे सुरसिद्धयक्ष सङ्घै अवनीतलगतैश्च भूतसङ्घै अरुशतमाकुलितैः निरीक्ष्यमाणः इत्यार्थे मद्रामायणे वाल्मीकि अधिकारे युद्धकाण्डे तप्तै नवतीतमः सर्ग श्री